नारायणीयं दशकं फोर्टि मीटर् द्रुतविलम्बितं तदनुनन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गदं समवलोक्य जगादभवत्पिता विदिदकंसहायजनोद्यमः अयि सखेतव सुखयतेद्य निजात्मजन्मवद इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस समादरात् तमादराद च सन्ध्यनिमित्तशतानि ते कटकसीम्नितदो लघुगम्यताम् इति च तद्वचः सा व्रजनायको भवदभाय अवसरे खलु तत्र च काचन तरला मधुराकृदिरङ्गना तरलषट्पदलालिदकुन्दला कपडपोतके निकडं गदा सपदि निशिचरान्वयजात् किल पूतना व्रजवधूष्विह केयमिति क्षणं विमृश्यतीषु भवन्तमुपादते ललितभाव विलास हृदात्मभिर्युवदिभि भवनान्द निषेदुषी प्रददुषी भवदे कपडात्मने समधि समधिरुह्य तदङ्गमशङ्कितस्तमधबालकलोपनरोषिदः महदिवाम्रफलं कुजमण्डलं प्रदि चुचूषिध दुर्विषदूषितम् असुभिरेव समम् दयदिवयिस्तन सौ स्तनोपम निरपद भयदाई निज वपु प्रदा प्रविश्य भुजु भयद घोषणीषण विग्रहश्रवण दर्शन मोहित वल्लवे प्रजपद तदुरस्थलखेलनम ननु भवन्तमगृह्णद गोपिकाः भुवनमङ्गलनामभिरेव युवदिभिर्बहुधा कृतरक्षणः त्वमयि वादनिकेतननाथ मामगदयन् कुरुतावकसेवकं सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द